इवद् दशकम् नरसिंहावतारम् तम्भे कट्यतो हिरण्यकशिभो कर्णौ समासूर्णयन् आगोर्नज्जगदण्डकुण्डगुहरो गोरस्तवा बोत्रभायम् किल दैत्यराजहृदये पूर्वम् गताप्यश्रुत कम्बः कश्चन सम्पपात चलितो ब्यम्बोजभोर्विष्टरा दैत्ये दिक्षु विसृष्टचक्षुषीमः सम्भ्रम्भिणी सम्पदा संभूतं न नमनुजा कारं बबुस्ते कारम् बभुस्ते विभो किम् किम् वीषणमेतदद्भुतमिति युद्भ्रान्तचित्ते सुरे विस्फूजद्दवलोऽग्ररोम विगसत् वर्ष्मा समाजृम्बधाम् तप्त स्वर्ण सवर्ण गोर्णततिरो साक्षम् सटाकेशरा प्रोत्कम्पप्रविकुम्भिधाम् भरमहो जीयातवेदम् बभू व्यातव्याप्तमहोदरिसकमुखम् खड्गोग्रवल्गन्महा जिग्वा निर्गमदृश्यमानसुमः दंष्ट्रायुघोठामरम् उत्सर्बत्वलिपङ्गभीषणहनुम् ह्रस्वस्तवीयस्तर ग्रीवम् पीवरतो च दोग्गतनग कूरां सुदूरोल्भणम् व्योमो लङ्गिगनागनो बमगन प्रध्वान निर्धावित स्पर्धालो प्रकरम् नमामि भवत स्तम् नारसिंहम् बभू नूनम् विष्णुरयम् निहन्मियमुमिति ्राम्यद्गताभीषणम् दैत्येन्द्रम् समुभाद्रवन्तमदृता दोर्भ्याम् मृदुभ्याममुम् वीरो निर्गलितोतख्गपलके गृह्णन् विचित्रश्रमान् वावृण्वन् पुनरापपात भुवन क्रोशोद्यतम् त्वामघो पुनरपि प्रोत्तृह्य दोर्भ्याम् जवा द्वारे दोरुयुगे निपात्यनकरान् व्युत्पाय वक्षो भुवि निर्बिन्दन्नदि गर्भनिर्भरगल्हत् रक्ताम्बुभक्तोत्सव पायम् पायमुतैरयो बहु जगत् संहारि सिंहारभाङ् नारायण नारायण नारायण सिक्तोन्नमद्वर्ष्मणी प्रत्युत्पत्त्य समस्तदैत्यपटले छात्पाद्यमाने त्वयि ब्राम्यद्भूमिविकम्पिताम्बुतिकुलम् व्यालोलचैलोत्करो प्रोत्सर्पत्कचरम् चराचरमहो दुस्त्वामवस्थाम् दधौ वन्माम् सवपाकरालवपुषम् गोरान्त्रमालादरम् त्वामद्ये सपमिद्धरोषमुषिता दुर्वार गुर्वारवम् अभ्येतुम् न चाचकको बिभुवने दूरे स्थिता बीरव सर्वे शर्वविरिञ्च प्रत्येकमस्दोषताम् ॐ नमो नारायणाय ॐ नमो नारायणाय ॐ नमो नारायणाय भूयोऽप्यक्षतरोषधाम्नि भवति ब्रह्माज्ञया बालके प्रग्लादेपतयोर्नमत्यपभये कारुण्यबाराकुल सान्द्रस्त्वम् करमस्त्यमूर्नि समता श्रोत्रैरदोद्विगायत तस्या कामतियोऽपि ते नितवरम् लोकाय चानुग्रहम् एवम् नाटित रौद्रचेष्टित विभो श्रीतापनीयाबित श्रव्यन्तस्फुटगीत सर्वमहिमम् अद्यन्तशुद्धा गृते सत्तादृङ्निखिलोत्तरम् पुनरहो कस्त्वाम् परो लङ्ये प्रह्लादप्रिय हेमरोत्पुरपते सर्वामयात् पाहिमा प्रह्लादप्रिय हेमरोत्पुरपते सर्वामयात् पाहिमा प्रह्लादप्रिय हेमरोत्पुरपते सर्वामयात् श्रीहरये नमः